हरि श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे चतुर्थः सर्गे श्रीराम प्रभृतिभिः सह वानरसैन्यस्य से प्रस्थानं सागरतटे निवेशश्च श्रुत्वा हनुमतो वाक्यं यथा वेद न ततो ब्रवीन् भारतेजा राम सत्य जन्वेदयसे लङ्कां पुरीं भीमस्य रक्षसः क्षिप्रमेणाम् बधिष्यामि सत्यं मे तद्रवीमिते अस्मिन् धूर्ते सुग्रीव प्रयाणम् अभिरोचय युक्तो मूर्ते विजये प्राप्तो मध्यम् दिवाकरः सीताम् भृत्वा तु तद् यातु पासो यास्य जीवितः सीता मे आशामे च जीविते जीवितान्ते मृतम् स्पृष्ट्वा पिता मृतमिव सुरः उत्तर फाल्मुनि ह्यद्य श्वस्तु हस्तेन योक्ष्यते अभिप्रया मा सुग्रीव सर्वानिकः समावृतः निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै निहत्य रावणम् सीताम् आनयिष्यामि यानकिम् उपरिष्टाधिनयनम् स्फरमाणम् अभे विजयम् समुनुप्राप्तम् श्वंसतीव मनोरथम् ततो वा नरराजेन लक्ष्मणेन सुपूजितः उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः अग्रे यातु नीलो मार्गमवेक्षितुम् कुतः सच्चतसहस्रेण वानराणां तरस्विनां फलमूलवता नील शीत कनन वारिण पथा मधुमता चाशु सेनां सेनापतेन य दूषयेयुर्दुरात्मानः पथि मूल फलोदकम् राक्षसा पथि रक्षेथाय तेभ्य सम् निम्नेषु वनदुर्गेषु वनेषु चैव नो कृतः अभिप्लुत्याभि पश्येयुः परेषाम् निहितम् बलम् यत्तु फल्गोवलम् किञ्चित् तदत्रैवोपपद्यताम् एतद्धिकृत्यम् घोरम् नो विक्रमेण प्रयुज्यताम् सागरोघनिभम् भीमम् अग्राणीकम् महबलः कपि सिंह प्रकर्शन्तु शतशोथ गजच्च गजश्च गिरिशासौ गवयश्च महाबलः गवाक्षैश्चाग्रतो यातु गवां धृत इव शभ यातु वानर वाहिन्या वानर प्लवताम्पतिः पालयन् दक्षिणं पार्श्वं वृषभो वानरषभ गन्धःस्तिव दुर्दर्शे तरस्वी गन्धमादनः यातु वा निर्वाहिन्य सव्यम् पाशम् अधिष्ठितः याच्यामि बलमध्येहम् बलौढम् अभिहर्चयन् अधिरुह्यः हनुमन्तम् ऐरावतम् विवेश्वरः अङ्गदेनै च संयातु सावभौम भूतेषु द्रविधीपति जाबवा चुषेण चेगदर्शी चनर है वृक्ष राजू कुि रक्षन तेत्रस्व ते श्रुवा सुग्रीव वाहिनी पति व्याशे महवी वनरा वान वानर श ते वा सर्वे समुत्पत्य महोजतः गुहाभ्यः शिखरेभ्य च आशुप्रो ततो वा नरराजेन लक्ष्मणेन च पूजितः जगाम रामो धर्मात्मा सञ्जो दक्षिणां दिशं शतै शतः सहस्रैश्च कोटे वारणाभैश्च हरिभिः ययोपरिवृतन्ती सा महती हरिवाहिनी रु प्रमुदिता सर्वे सुग्रीवेणापि पालिताः आप्लवन्तः पवन्तश्च गर्जन्तश्च प्रभङ्गमः खेलन्तु निनदन्तश्च जग्मुर्भये दक्षिणां दिशं भक्षयन्तः सुगन्धिभिः मधूनि च फलानि च उद्वहन्तो महावृक्षान् मञ्जरी पुञ्जधारिण अन्योन्यं च सा दृप्ता निर्वहन्ति क्षिपन्ति च पतन्तश्चोत्पतन्त्यन्ये पातयन्त्य परे परान् रावणो नो निहन्तव्य सर्वे च रजनीचराः राघवस्य समीपतः पुरस्तादृशभो नीलौ वीर वीरे एव च पन्थानं शोधयन्ति स्म वानरे बहुभिः मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च बलिभि भी बहुभि भीमये भी कृतश्चत्रो निबर्हण हरीशत बलिर्वीर कोटिभिर्दशभिर्वृत सर्वामेको रक्षय हरिवाहिनीम् कोटिषत परिवारे केसरी पनसो विजः अर्कश्च बहुभिः पाशम् एकं तस्याभिरक्षति सुषेधो जाम्बमासैव वृक्षैर्बहुभिरावृतौ सुग्रीवम् पृथक् कृत्वा जघनम् सन्द्ररक्षतुः तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः सम्पतन् प्लवताम् तद्बलं तद्बलम् पर्यवारयत् दरीमुख प्रजङ्घ जम्भोथर्भस कपि सर्वतश्च यजुर्वीरा तरयन्त प्रवङ्गवान् एवं ते हरिचार्दूला गच्छन्ति बलदर्पिताः अपश्यन्त सह्यं गिरिशतायुतं सरासि च सुफुल्लानि तटाकानि वराणि च रामस्य शासनं ज्ञात्वा भीमकोपास्य भीतवेत् वर्जयन्नागराभ्यासान् तथा जैनफलान् अपि सागरोधनिभम् भीमम् तद्वा नर निससर्प महघोरम् भीमघोषम् विवार्णवन् तस्य दाशरथे पार्श्वे शूरास्ते कपिकुञ्जरः तुरणम् मापूप्लु सर्वे स दश्वा इव चोदितः कपिभ्याम् मुह्यमानोतौ शुशुभाते नरशभौ महद्भ्याम् इव संस्कृष्टौ चन्द्रभास्करो ततो आनरराजेन लक्ष्मणेन सुपूजितः जगाम रामो धर्मात्मा सैन्यो दक्षिणाम् दिशम् तम्मङ्गतो रामम् लक्ष्मणे शुभय गिर उवाच परिपूर्णार्थम् पूर्णार्थ प्रतिभानवन् हृताम् अप्राप्य स्वी देहिम् क्षिप्रं हत्वा अयोध्यां पति यास्यसि महान्ति च निमित्तानि दिवि भूमोचराघवे शुभानि तव पश्यामि सर्वाण्ये वार्थ शिवो वायु सेनाम् रुदूहितः सुख पूर्णभर्गुः स्वराश्चेमे प्रवदन्ति मृगद्विजाय प्रसन्ना च विमलश्च दिवाकरः उशनश्च प्रसन्नाथ अनूत्वा भार्गवो गतः ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः अर्चिष्मन्त प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् विमलो भाति राजशीच पुरोहितः पितामह पुरोत्माकम् इक्ष्वाकूणाम् महात्मनाम् विमले च प्रकाशेते विशाखे निरुपद्रवे नक्षत्रम् परमस्माकम् इक्ष्वाकोणाम् महात्मनाम् नै ऋतं नैऋतानाम् च नक्षत्रम् मूलो मूलवता स्पृष्टो धूमकेतुना सर्वं चैतद्विनाशाय राक्षसाम् उपस्थितं काले काले गृहीतानां नक्षत्रं ग्रहपीडितं प्रसन्नः सुरताश्चापो वनानि फलवन्ति च प्रवांसी यथर्तु गन्धा यथा तु कुसुमा द्रुमः व्यूढानि कपसैन्यानि सङ्ग्रामे तारका मये एव समीक्षेत् प्रीतो भवितुमर्हसि इति भ्रातरमाश्वास्य वृत्य सौमित्रिब्रवी अथावृत्य महीं कृष्ण जगान् हरिवाहिनी वृक्षे वा नरसार्दुलैः न कदंधैरपि कराग्रे चरणाग्रे वानरैरुद्धतम् गजः भीमं तर्दधे लोकम् निवार्य सवितु प्रभाम् स पर्वतवनाकाशम् दक्षिणाम् हरिवाहिनी छादयन्ति ययो भीमा जामिवाम्बूदसन्तति उत्तरन्त्या च सेनाय सततम् बहुयोजनम् नदीस्रोतान्सि सर्वाणि सस्यन्दुर्विपरीतवेत् सरंसि विमलाम्भासि रुमाकीर्णा च पर्वतान् समान भूमिपदेशा च वनादि फलवन्ति च मध्ये न च समन्ता चिर्यक्चाधश्च सा विशेत् समावृत्य मह्यं कृष्णाम् जगाम महती च मुहुः ते वदना सर्वे जगबुर्मारुतर हर ओ रात विक्रम हमकर्शय परस्पर यवनोत्कर्पा विविधा चक्रुरध्वनी त्रेचिद्रुत जगमु उत्पेत चाह की किले किला चक्रु गोचरः प्रस्फोटयन् च पुच्छानि सन्निजघ्नौ पदान्यपि भुजान् विक्षेप्य शैलां च द्रुमानन्ये बभञ्जिरे आरोहन्त च शृङ्गाणि गिरीण्ड गिरिगोचरः महानादान्ती केडामन्ये प्रचक्रिरे उरुवेगे च लता जालान्यनेकचः जुम्रमाणा च विक्रान्ता विचि क्रीडु शिरा द्रुमहि शतशत सहस्रैश्च कोटिभिश्च सहस्र वानराणां सुघोराणां श्रीमत्परिवृतामहि सात्मयाति दिवारात्रम् महती हरिवाहिने। प्रविष्ट मुदिता सर्वे सुग्रीवेणाभिपालितः वानरीता यान्ति सर्वे युद्धाभिनन्दिनः प्रमोक्ष ईशव सीताम् क्वापि नावसन् ततः पादपसंवादं नानावनसमायुतं सह्य पर्वतमासाद्य वानरासे समारोहन् कान्नानि विचित्राणि नदी प्रसुणानि च पश्यन्नपि ययो राम सह्यस्य मलयस्य च चम्पकान् तिरकाञ्चूतान् अशोकान् सिन्धुवारकान् तिनिशान करवीरांश भञ्जन्ति स्म प्रवङ्गमः अङ्कोलां करञ्जांश्च प्रसन्यग्रोधपादपान् जम्बुकाय मलकान् नेपान् भञ्जन्ति स्म प्लवङ्गमः प्रस्तरेषु चरम्येषु विविधाकानद्रुमः वायु वैग प्रचलिताः कुष्पैरव किरन्ति तान् मारुत सुखसंस्पर्श वापि चन्दन शीतलः षट्पदै अन मधुवन्धिषु अधिकम् शैलराजस्तु दातु विभूषितः धातुभ्यः प्रसृतो रेणु वायुवेगेन घट्टितः सोम्भेद्वानरनेकं चादयमास सर्वतः गिरिप्रस्थेषु रम्येषु सर्वतः संप्रपुष्पिता केतक्य सिन्धुवारा च वा सन्त्याश्च मनोरमः माधव्योगन्धपूर्णा च पुनम गुल्माश्च पुष्पिता श्रीभिवा मधुकाश्च मञ्जुला बकुलका शिलकाश्च नागवृक्षाश्च पुष्पिता चूता पाटलिकाश्चैव कोविदारश्च पुष्पिताः मुचुरिन्दा अर्जुना चैव छिंच कुलजा तथा शिन्ताला कनिष चैव चूर्णक निपकथ नीलाशोका सरला रङ्गोला पन्नका तथा प्रीयमाणे प्लवङ्गे तु सर्वे पर्याकुलीकृतः प्राप्यस्तस्मिन् गिरो रम्य पल्बलानि तथैव चक्रवाकानुचरितः करण्डवनिषेवितः प्लवै क्रौञ्चै च संकीर्ण वराह मृगसेवितः वृक्षैस्तरे क्षुभि सिंहै चार्दूलैश्च भयवहे गालैश्च भूभिर्भीमै भी सेव्यम्बाना समन्ततः पद्मै सौगन्धिकै फुल्लैः कुमुदैश्चोत्पलैस्ततः वारिजै विविधैः पुष्पै रम्यास्तत्र जलाशयः तस्य सा नु च पूजन्ति नाना द्विजगणस्ततः स्नात्वा पीतोदकान्यत्र जले क्रीडन्ति वानरः अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानरः फलान्यम् मृतगन्धीनि मूलानि कुसुमानि च भवञ्जैर्वानरः तत्र पादपानाम् मधुत्कटः द्रोणमात्रे प्रमाणानि लम्बमानानिवानरः ययुपिबन्तः स्वस्थासे मधुनि मधुपिङ्गलः पादपः नव भञ्जन्तो विकर्षन्त तथा रतः विदमन्तो यदि वरम् प्र ययु तु कपयो नदन्तो मधुदर्पिताः अन्ये वृक्षान् प्रपद्यन्ते प्रबिबन्त्यपि च परे बभूव सम्पूर्णा हरिपुङ्गवै यथाकल मदे केदारे पक्वैरेव सुन्दर महेन्द्रम् अथ सम्प्राप्य रामो राजीव लोचनः महाबाहु शिखरं द्रुमभूषितं तथा शिखर मारुह्य रामो दश रथात्मज कूर्मबीन अपश्य स लिलाशयम् ते स्वयं समतिक्रम्य मलयं च महगिरिम् आसे दूरान् पूर्वेण समुद्रं भीमनिस्वनम् अवरुह्य जगामाशु वेलावनम् अनुत्तमम् रामोर्मयतां श्रेष्ठ स सुग्रीव स लक्ष्मणः अथ धोतः पललताम् सोऽयो है सोष्ठद्य विपुलम् राम्भो वचनमब्रवी एते वयमनुप्राप्ता सुग्रीव वरुणालयम् इहे विचिन्ता सा यान पूर्वमुपस्थितः अतः परमातिर्योऽयं सागरे सरिताम्पतिः न चायम् अनुपायेन शक्य सरितमरणवह तदिहैव निवेशोतु मन्त्र प्रयु प्रस्तूयतामिह यथेदम् वा नरबलम् परम्पारम् अवाप्नुयात् इति वय स महाबाहु सीताहरणकर्षितः रामसागरमासाद्य वासमाज्ञापयत्तर सर्वासेना निवेश्यन्ताम् वीलायाम् हरिपुङ्गव सम्प्राप्तो मन्त्रकालो न सागरस्य हलङ्घने स्वां स्वां सेनाम् समुत्सृज्य मासकश्चित् कुतो व्रजेत् गच्छन्तु वा न शूर नैयञ्च रामस्य वचनं श्रुत्वा सुग्रीव स लक्ष्मणः सेनाम् निवेशयति सागरस्य द्रुमायुते विरगाज समीपस्थम् सागरस्य च तद्बलम् मधुपाण्डु जगत् श्रीमान् द्वितीय इव सागरः वेलावनम् उपागम्य ततस्ते हरिपुङ्गवः निविष्टा च परम्पारम् काङ्क्षमाणा महोदधे तेषाम् निवेशमानानाम् सैन्यसु नहनिस्वनः अर्णव अर्णवस्य प्रशुश्रुवे सा वानराणाम् ध्वजनी सुग्रीवेणाभिपालिता त्रिधा पराभवेत विहती रामस्यार्थ परा भवेत् सा अर्णवमासाद्य गण निषेवितम् पश्यन्तो वरुणावासम् निषेधु हरियूथप चण्डनक्र ग्रहघोरम् क्षपादो दिवचक्षये हसन्तम् इव फेनोभै नृत्यन्तम् इव चोर्मिभिः चन्द्रोदये समुद्भूतम् प्रति चन्द्रे समाकुलम् चण्डा ङ्गलै दीप्तभोगैरिवाकिरणम् भुजङ्गै वरुणालयम् अवगाढम् अहसत्वै नानाशैल समाकुलम् सुदुर्गं दुर्ग मार्गं तम् अगाधम् असुरालयम् मकरै नागभोगै च विगाढ वात लोलितः प्ररुष्ट जलराशयः अग्निचूर्णम् विवाविद्धम् भास्वराम्बुमहोरगम् सुरारी निलयम् घोरम् पातालय विषयम् सदा सागरं चाम्बरप्रख्यम् अम्बरम् सागरोपमम् सागरम् चाम्बरं चेति निर्विशेषं निर्विशेषमदुष्यत सम्पृक्तं नभताप्यम्भ संपुृक्त नुंभसूपे तारा रन सामकु समे मलाकुस्थ विशेषो नोरासि सागृहशंबर से अन्हता सू भीमश्वर उन्वय सिंधुराज से महावीर्य इव अम्बरे रत्नोह जलसन्नादम् विशक्तम् इव वायुन उत्पतन्तम् इव क्रुद्धम् महात्मानो गर्णकुलम् दृशुस्ते अनिलो धूतमाकाशे प्रबलान्तम् इव मिभिः ततो विस्मयमापन्न हरि ओ ददृशुसिता भ्रातूर्मि सन्नादम्, त्रिलोलम् इव सागरम् इत्याखी श्रीमद् रामायणे वाल्मीकि अधिकारी युद्धकाण्डे चतुर्थ सर्ग हे श्रीसीता रामचन्द्रार्पणमस्तु